कमाल, कबीर पुत्र कबीर कमो मध्ये न कवल पितापुत्रसंबंध अपितु तो गि गुरशिष्य सबंध आस कम चिंतनं, मननं, ध्यानं, आराधनां, आराधना सिद्धिं प्राप्त परंतु स्वयं सिद्धपुर कबीर जम यत् कमालः अद्यापि पूर्णज्ञानी नास्ति तस्मिन् तावती परिपक्वता नास्ति इति अतः सः स्वपुत्राय स्नानसमये रामनामोच्चारणस्य मन्त्रं दत्तवान् कस्मिञ्चित् दिने प्रत्यूषे गङ्गास्नानं कृत्वा कमालः गृहं प्रस्थितवान् गङ्गातटे बहवः जनाः सम्मिलिताः आसन् तत्र कश्चित् श्रेष्ठी श्वेतकुष्ठरोगेण पीडितः आत्महत्यार्थम् उद्युक्तः आसीत् कमालः झटिति तत्र गत्वा अवदत् भोः श्रेष्ठीन् गङ्गायां निमज्य प्राणत्यागं मा करोतु इति शरीरतापं सोढुं न मया किं करणीयम् इति श्रेष्ठी अपृच्छत् कमालः अवदत् रामनाम जपतु इति तदा श्रेष्ठी अवदत् रामनाम जपं करोमि चेत् अहं रोगमुक्तः भवेयं किम् इति भवान् प्रयत्नं तु करोतु इति कमालः अवदत् सह शेषी रामनाम जपत आरभत गंगाजले निमग्न अभी परीरस ताप शा नत पुनः सह निम तथा कोप न दृष्ट अंते स्िन स्वहस्तं स्था श्रेष्ठिनं राम्नां जपितुम् अकथयत् च ततः श्रेष्ठी जले निमज्य बहिः आगतवान् अहो आश्चर्यम् तस्य शरीरस्य तापः शान्तः अभवत् श्वेतकुष्ठः अपि न्यूनतरः जातः गङ्गातटे सम्मिलिताः सर्वे जनाः एतद्दृष्ट्वा कमालस्य जयगोषं कृतवन्तः तदनन्तरं कमालः चिन्तितवान् अधुना अहं सिद्धपुरुषः अभवम् इति सानन्दं गृहं गतवान् सः तस्य मुखे आनन्दं दृष्ट्वा कबिरः तस्य कारणं पृष्टवान् तदा कमालः तस्मै सर्वं वृत्तान्तं निवेदितवान् अहं सिद्धिं प्राप्तवान् इत्यपि तेन उक्तं तत् श्रुत्वा कबिरः अतीवदुःखितः जातः कमालः सिद्धिं प्राप्य अहंकारी अभवत् इति सः निश्चितवान् कथमपि तस्य अहङ्कारः निवारणीयः इत्यपि सह चिन्तितवान् अनन्तरं सः स्वमित्राय तुलसीदासाय एकं पत्रं लिखितवान् तत् पत्रं कमालाय दत्वा उक्तवान् वत्स तुलसीदासस्य गृहं गत्वा तस्मै एतत् पत्रं ददातु इति कमालः तत् स्वीकृत्य तुलसीदासस्य गृहं गत्वा तस्मै पत्रं दत्तवान् तुलसीदासेन तत् पठितम् क्षणं विचिन्त्य सः स्वसेवकान् आहूय उक्तवान् नगरे यावन्तः श्वेतकुष्ठरोगेण पीडिताः जनाः सन्ति तान् सर्वान् अत्र आनयन्तु इति ततः सेवकाः गत्वा बहून् तादृशान् रोगग्रस्तान् आनीतवन्तः तदा तुलसीदासः एकस्मिन् जलपूर्णे कुम्भे रामनाम लिखित्वा तत्र कानिचित् तुलसीपत्राणि क्षिप्तवान् तदनन्तरं सेवकान् उक्तवान् एतत् जलम् एतेषां सर्वेषां रोगग्रस्तानाम् उपरि सिञ्चन्तु इति सेवकाः तथैव कृतवन्तः अहो आश्चर्यं तत्र मिलिताः सर्वे रोगिणः अपि रोगविमुक्ताः अभवन् एतद्दृष्ट्वा कमालः विस्मितः जातः लज्जितः सन् सः महापुरुषस्य तुलसीदासस्य चरणयोः शिरः स्थापयित्वा क्षमां प्रार्थितवान् ततः प्रत्यागतवान् च गृहम् आगत्य कमालः पितरम् अपि क्षमां प्रार्थितवान् पुनः कदापि मम सिद्धेः प्रदर्शनं न करिष्यामि इत्यपि सः उक्तवान् सन्तुष्टः कबिरः तं बोधितवान् कदापि आत्मनः स्तवनं न करणीयम् आत्मश्लाघा नैव श्रेयसे इति